ीमकर्मणे नमः ॐ भीमदण्डकराय नमः ॐ भीमलिङ्गाय नमः ॐ भीमगुणानुगाय नमः ॐ भीमरूपाय नमः ॐ भीमारत् ॐ भीमारत्यवजबन्धुरभवभीतिभिधे नमः ॐ भीमाट्टः नमः ॐ भूमिजर्चिताय नमः ॐ भूमिधाय नमः ॐ भूमिभारार्तिसंह त्रे नमः ॐ भोग्ने नमः ॐ भूमत्ये स्थिताय नमः ॐ भौमाय नमः ॐ भौमेसाय नमः ॐ भयहारिणे नमः ॐ भयवर्जिताय नमः ॐ भयंकराय नमः ॐ भयापहाय नमः ॐ भयानय नमः ूयसे नमः ॐ भरद्वाज दीक्षा गुरुभूतदक्षिणवदनाय नमः ॐ भरद्वाजाय नमः ॐ भारद्वाजसमाश्रिताय नमः ॐ भरताय नमः ॐ भराय नमः ॐ भर्गदेवाय नमः ॐ भर्गवासाय नमः ॐ भर्गाय नमः ओम् भर्त्रे नमः ॐ भारतीप्रियाय नमः ॐ भारद्वाजकुलीनात्मपूजकाय नमः र्गवाय नमः ॐ भार्यासुतयुक्ताय नमः ॐ भूर्भुवस्वपथये नमः ॐ भूर्भुभोलक्ष्म्यै नमः ॐ भूर्धेवाय नमः ॐ भेरुण्ढाय नमः ॐ भैरवाय नमः ॐ भैरवाष्टकसंसेव्याय नमः ॐ भैरवनादनादिने नमः ॐ भैरववेगवेगाय नमः ॐ भैरवनादाय नमः ॐ भैरवरूपिणे नमः ॐ भैरवरूपाय नमः ैरवान्धरूपाय नमः ॐ बालनेत्रानलार्चिपीनोष्मणे नमः ॐ बालनेत्राग्निसन्दमन्मथाय नमः ॐ भूलोकवासिने नमः ॐ भूलोकनिवासिजनसेविताय नमः ॐ भूलोकशिवलोकेशाय नमः ॐ भूलोकामरपादपाय नमः ॐ भवरोगभयद्वांशिने नमः ॐ भववैद्याय नमः भयापहाय नमः ॐ भवविधूराय नमः ॐ भवहेतवे नमः ॐ भवसौरव्यधायिने नमः ॐ भवभावनाय नमः ॐ भविग्रहाय नमः ॐ भवनासाय नमः ॐ भवज्ञाय नमः ॐ भवभीतिहराय नमः ॐ भवथे नमः ॐ भवहारिणे नमः ॐ भेशाय नमः ॐ भवहेतवे नमः ॐ भवाच्छिधे नमः ॐ भवकृन्तनाय नमः ॐ भवोद्भवाय नमः ॐ भवसागरतारणाय नमः ॐ भवरोगभयापहाय नमः संहर्त्रे नमः ॐ भवरोगिणाम्भेषजाय नमः ॐ भवद्भव्यभूतेश्वराय नमः ॐ भवसिन्धुप्लवाय नमः ॐ भववाभिभूतभीतिभङ्गििने नमः ॐ भवारये नमः ॐ भव्याय नमः ॐ भवानीपतये नमः ॐ भवाब्धितारकाय नमः वानि कलत्राय नमः ॐ भवान्तकाय नमः ॐ भवानि संविधाय नमः ॐ भवाय नमः ॐ भवानि प्रीतिधाय नमः ॐ भवानि जपसन्तुष्टाय नमः ॐ भवानी पूजनोत्सुकाय नमः वात्मने नमः ॐ भवार्तिज्ञे नमः ॐ भवाब्धितरणोपायाय नमः ॐ भवातीताय नमः ॐ भवानीशाय नमः ॐ भवारण्यकुटारकाय नमः ॐ भवान्तकारदीपाय नमः ॐ भावलिङ्गाय नमः ॐ भावार्थगोचराय नमः ॐ भावाय नमः ॐ भावाभावविवर्जिताय नमः ॐ भावरथाय नमः ॐ भावप्रियाय नमः ॐ भावातीताय नमः ॐ भुवनेश्वराय नमः ॐ भुवन्तये नमः ॐ भुवनेशाय नमः ॐ भुवनाध्वने नमः ॐ भुवनत्रयमण्डिताय नमः ॐ भुवनत्रदयाधिपाय नमः ॐ भुवनैकनादाय नमः ॐ भुवनत्रयकारणाय नमः ॐ भुवनाधीश्वराय नमः ॐ भुवनाय नमः ॐ भुवनेश्वराय नमः ॐ भूषयाय नमः ॐ भाषाभति नमः ॐ भाषाप्तिस्तुताय नमः ॐ भाष्यकार रमञ्जीराय नमः ॐ विषजाम् विषक्तमाय नमः ॐ विषक्तमाय नमः ॐ विषजे नमः ॐ भीषणाय नमः ॐ भीष्माय नमः ॐ भूषणाय नमः ॐ भूषास्तिकुण्डप्रकरपरिव्रताय नमः ॐ भूषणभूषिताय नमः ॐ भेषजाय नमः ॐ भस्मभूषाय नमः ॐ भस्मनिष्टमहासैव नमः ॐ भस्मभूषितविग्रहाय नमः ॐ भस्मप्रियाय नमः ॐ भस्मभासितसर्वाङ्गाय नमः ॐ भस्मसंस्था Yeah, not my harm. ॐ भस्मसायिने नमः ॐ भस्मशुद्धिकराय नमः ॐ भस्मगोत्रे नमः ॐ भासितश्वेतवराङ्गाय नमः ॐ भस्मभूताय नमः ॐ भसितलसिताय नमः ॐ भस्मधिग्गकलेवराय नमः ॐ भस्मधारणहृष्टाय नमः ॐ भस्मकैलाशदाय नमः ॐ भस्मलेपकराय namaha मधिग्नशरीराय नमः ॐ भस्मविभूषिताङ्गाय नमः ॐ भस्मनाभूषिताङ्गाय नमः ॐ भस्मभूषाधराय नमः ॐ भस्मरुद्राक्षमालाभिर्मनोकरकलेपराय नमः ॐ भस्मगौराङ्गाय नमः ॐ भस्मलेपाय नमः ॐ भस्मीकृतानङ्गाय नमः ॐ भसिधालेपमण्डिताय नमः ॐ भासितभूषाय नमः ॐ भस्मो धूलितसर्वाङ्गाय नमः ॐ भस्मो धूलितविग्रहाय नमः ॐ भस्म सुरप्रियाय नमः ॐ भस्म सक्ताय नमः ॐ भस्मासुरेष्ठधाय नमः ॐ भस्माङ्गधारिणे नमः ॐ भस्मसयाय नमः ॐ भस्माङ्गराघाय नमः ॐ भाषयथे नमः ॐ भाशुराङ्गाय नमः ॐ भाष्वत् नमः ॐ भास्वराय नमः ॐ भाष्वत्कटाक्षाय नमः ॐ खानाम् भासखाय नमः ॐ बाश्वते नमः स्कराय नमः ॐ भास्कराराध्याय नमः ॐ भूसुराराधनप्रीताय नमः ॐ भूसुराध्यक्षाय नमः ॐ भूसुरेष्ठफलप्रदाय नमः ॐ भूसुरेढ्याय नमः ॐ भूसुतापालनाय नमः ॐ भूसुरेशाय नमः ॐ भूसुरवन्दिताय नमः ॐ भिक्षाहाराय नमः ॐ भिक्षाचरणतप्तराय नमः ॐ भिक्षवे नमः ॐ भिक्षुरूपाय नमः ॐ भिक्षुदुक्षकाय नमः ॐ भिक्षायाचनपरायणाय नमः ॐ भिक्षाटनवेशाय नमः ॐ भिक्षुकाय नमः ॐ भैष्कर्मपरायणाय नमः ॐ वैशनाशकाय नमः ॐ वैशचराय नमः ॐ मकारस्य कालरुद्रो देवदा स्तम्भनद्वेषनमोहनेशो विनियोग नमः काररूपाय नमः ॐ मकाराय नमः ॐ मकुटागममममममममममममममकुटाय नमः ॐ महरन्तरसासारवचनाय नमः ॐ मकुडाङ्गतकेयूरकमगणातिपरिष्कृताय नमः ॐ महारार्ताय नमः ॐ मुक्तिरूपाय नमः ॐ मुक्तिशाय नमः ॐ मुक्तिप्रदात्रे नमः ॐ मणि विराजिताय नमः ॐ मुकुन्ताय नमः ॐ गुन्दासखाय नमः ॐ मुक्ततेजसे नमः ॐ मुक्तये नमः ॐ मुक्ता धामपरिधाङ्गाय नमः मुक्तिनाथाय नमः ॐ मुक्ताय नमः ॐ मुक्तसक्ताय नमः ॐ मुक्तवैचित्यहेतवे नमः ॐ मुक्ताहारविभूषणाय नमः ॐ मुक्ताट्टहासाय नमः ॐ मुक्ता नमः ॐ मुक्ताहारचयोपेताय नमः ॐ मुक्तादभत्रनिर्गणन् नमः ॐ मुक्तेश्वराय नमः ॐ मुक्तानवशासनाय नमः ॐ मूकनाशाय नमः ॐ मौक्तिकस्वर्णरुद्राक्षमालिकाय नमः ॐ मौक्तिकस्रग्मिणे नमः ॐ मौक्तिकमालिकाय नमः ॐ मृगण्डुधनयस्तोत्रजातहर्षाय नमः ॐ मृगण्डु सुनुरक्षणावर्धूदण्डपाणये नमः ॐ मकबिधे नमः ॐ मघग्नाय नमः ॐ मघध्वम्ने नमः ॐ मकविनाशानाय नमः ॐ मकान्तकाय नमः ॐ मघद्वेषिणे नमः ॐ मकारये नमः ॐ मखपतये नमः ॐ मगेशाय नमः ॐ मुखनिर्जितबन्धवे नमः ॐ मुखनगधीकृतचन्द्राय नमः ॐ मुखबन्धुपूर्णिमसोमाय नमः ॐ मुखबन्धुपूर्णविधुबिम्बाय नमः मुख्यप्रणाय नमः ॐ मुख्याय नमः ॐ मे कलिने नमः ॐ मङ्गलाय नमः ॐ मङ्गलसुश्वराय नमः ॐ मङ्गलप्रदाय नमः ॐ मङ्गलधाराय नमः ॐ मङ्गलकराय नमः ॐ मङ्गळ्याय नमः ॐ मङ्गलात्मकाय नमः ॐ मुग्धाय नमः ॐ मुग्धेन्द्रमौलये नमः मुग्धेन्दुशेखराय नमः ॐ मुग्धरूपाय नमः ॐ मौध्यप्रदात्रे नमः ॐ मौध्यहाराय नमः ॐ मृगमधसुन्दराय नमः ॐ मृगप्रियाय नमः ॐ मृगव्याधाधिपतये नमः ॐ मृगाङ्गशेखराय नमः ॐ मृगाक्षाय नमः O Mr. Gya Yenema Han, O Mr. Gat Yotvek Tikarana Yenema Han, ॐ मृगेन्द्राणां सिंहाय नमः ॐ मृगेन्द्रचर्मवसनाय नमः ॐ मृगेश्वराय नमः ॐ मृगान्तकाय नमः ॐ मृगव्यधाय नमः ॐ मृगेन्द्रवाहनाय नमः ॐ मृगबाणार्पणाय नमः ॐ मृगयुभ्यो नमः ॐ मृगडङ्गधराय नमः ॐ मृगधारिणे नमः ॐ मृगात्युत्पत्तिनिमित्ताय य नमः ॐ मेघवाहनाय नमः ॐ मेघवाहाय नमः ॐ मेघुन्धुभिनिश्वनाय नमः ॐ मेघाय नमः ॐ मेघाधिपतये नमः ॐ मेध्याय नमः मोषकाय नमः ॐ मोषाफलप्रीताय नमः ॐ मञ्जुलाकृतये नमः ॐ मञ्जुसिञ्जितमञ्जीरचरणाय नमः ॐ मञ्जुलातरविद्वस्तबन्धूकाय नमः ॐ मञ्जुप्रवालरुचिरपदाब्जाय नमः ॐ मञ्जीरपादयुगलाय नमः ॐ मञ्जु सिञ्जातमञ्जीरलसत्पादसरोरुहाय नमः जीर मञ्जुलपदाय नमः ॐ मञ्जुमजीरनिधैराकृष्टा किलसारसाय नमः ॐ मञ्जुमञ्जीरचरणाय नमः ॐ मञ्जुवाससे नमः ॐ मञ्जुभाषणाय नमः ॐ मुञ्जिकेशाय नमः ॐ मुञ्जशुभ्राय नमः ॐ मञ्जुष्ठाय नमः ॐ मौञ्जीयुजे नमः ॐ मण्डनप्रियाय नमः ॐ मण्डनमण्डयित्रे नमः ॐ मण्डलान्तरगताय नमः ॐ मुण्डिने नमः ॐ मुण्डमालिने नमः ॐ मुण्डाय नमः ॐ मृडरूपाय नमः ॐ मृडाय नमः ॐ मृडानीपतये नमः ॐ मीडुषे नमः ॐ मीडुष्टमाय नमः ॐ मेड्रजाय नमः ॐ मणिशोभानसङ्कासवलिकाय नमः ॐ मणिपुराय नमः ॐ मणिविद्धजडाधराय नमः ॐ मणिकङ्कणभूषिताय नमः ॐ मणिभूषाय नमः ॐ मणिकुण्डलमण्डिताय नमः ॐ मणि नमः ॐ मणिपूरनिवासकाय नमः ॐ मणिमण्टपमध्यस्थाय नमः ॐ मणिभन्तविराजिता य नमः ॐ मणिमालाय नमः ॐ मणिभूषितमूर्घ्ने नमः ॐ मणिगणस्वारनागकङ्कणाय नमः ॐ मणि ्य वासकस्वान्तमन्दिराय नमः ॐ माणिक्यभूषणाय नमः ॐ माणिक्यमगुडसन्धिप्तशीर्षाय नमः ॐ माणिक्यमगुडोज्वलाय नमः ॐ मृणाळधन्तुसङ्कासाय नमः ॐ मथाय नमः ॐ मन्त्राय नमः ॐ मन्त्रे नमः मन्त्राकाराय नमः ॐ मन्त्रात्मने नमः ॐ मन्त्रवेद्याय नमः ॐ मन्त्रकृते नमः ॐ मन्त्रशास्त्रप्रवर्तिने नमः ॐ मन्त्राधिपतये नमः ॐ मन्त्रभूषणाय नमः ॐ मन्त्रनिपुणाय नमः ॐ मन्त्रज्ञाय नमः ॐ मन्त्रिणे नमः ॐ मन्त्रेशाय नमः ॐ मन्त्रविधांवराय नमः ॐ मन्त्रविधां श्रेष्ठाय नमः ॐ मन्त्रकोटीशाय नमः ॐ मन्त्रनायकप्रणवात्मने नमः ॐ मन्त्रपतये नमः ॐ मन्त्राणां प्रभवे नमः ॐ मन्त्रतन्त्रात्मकाय नमः ॐ मन्त्रवित्तमाय नमः ॐ मन्त्रनाथप्रियाय नमः ॐ मन्त्रराजस्वरूपिणे नमः ॐ मन्त्रशक्तिस्वरूपिणे नमः ॐ मन्त्रकीलकरूपाय नमः ॐ मन्त्रिपूज्याय नमः ॐ मन्त्राणाम्बतये नमः ॐ मन्त्राध्वरुचिराय नमः ॐ मन्त्रिरक्षिणे नमः ॐ मत्स्याक्षि सुकृते नमः ॐ मतिप्राज्ञासुधाधारिणे नमः ॐ मतिप्रियव्याद्रचर्मवसनाय नमः ओम् अतिमते नमः ॐ मद्धद्विरक्षचर्मध्रते नमः ॐ मतिप्रसादक्रियाधक्षाय नमः ॐ मन्त्रिभिर्मन्त्रिताय नमः त्ताय नमः ॐ मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहराय नमः ॐ मत्तान्दगकरडिकण्ठीरवराय नमः ॐ मत्तमादङ्गसत्कृतिवसनाय नमः ॐ मातामहाय नमः ॐ मातॄणां मात्रे नमः ओम् मातृमण्डलसंसेव्याय नमः ॐ मातॄणां पतये नमः ॐ मादङ्गचर्मवसनाय नमः ॐ मात्राधिकाय नमः ॐ मातृकापतये नमः ॐ मातस्रस्वने नमः ॐ मात्रे नमः ॐ मातृकागणपूजिताय नमः ॐ मित्राय नमः ॐ मितभाषणाय नमः दभाषिणे नमः ॐ मित्रवंशप्रवर्धनाय नमः ॐ मित्रसन्तुष्टाय नमः ॐ मित्रपोषकाय नमः ॐ मित्रपालाय नमः ॐ मृत्युञ्जयाय नमः ॐ मृत्युञ्जय महाराजदत्तमुक्तश्रिये नमः ॐ मृत्यग्नाय नमः ॐ मृत्युसंसारखण्डनाय नमः ॐ मृत्योरीशाय नमः ॐ मृत्युबीजाय नमः ॐ मृत्युसंसारपादोदिकर्णताराय नमः ॐ मृत्यवे नमः ॐ मृत्युमन्यवे नमः ॐ मृत्युग्ने नमः ॐ मृत्युपूजिताय नमः ॐ मृत्युभृत्यवे नमः ॐ मन्थानाय नमः ॐ मिथिलपुरसंस्थानाय नमः ॐ मिथिलापतिपूजिताय य नमः ॐ इत्याजगदधिष्ठानाय नमः ॐ मनार्धस्वरूपिणे नमः ॐ मधनाय नमः ॐ मदनान्तकारिणे नमः ॐ मदनान्तकाय नमः ॐ मदनारये नमः ॐ मदनामोदकाय नमः ॐ मदोद्धताय नमः ॐ मदोत्कटाय नमः ॐ मधावलकराभूर्युगलाय नमः ॐ मधालसाय नमः ॐ मदग्ने नमः ॐ मधापहाय नमः ॐ मदनान्तकराय नमः ॐ मदान्तसिन्दुरासुरत्वगुत्तरीयमेदुराय नमः ॐ मन्दरस्ताय नमः ॐ मन्दस्मितः पराभूतचन्द्रिकाय नमः ॐ मन्द मन्दारपुष्पत्यलसत्त्वायुनुसेविताय नमः ॐ मन्दरालयाय नमः ॐ मन्दधूराय नमः मन्दगतये नमः ॐ मन्दरशृङ्गनिवासिने नमः ॐ मन्दराद्रिनिकेतनाय नमः ॐ मद्भर्त्रे नमः ॐ मदोदग्राय नमः ॐ मन्दाकिनी सलिलचन्दनचर्चिताय नमः ॐ मन्धार पुष्पबहुपुष्पसुपूजिताय नम नमः ॐ मन्धार मल्लिकाधामभूषिताय नमः ॐ मन्दाकिनी जलोपेदमूर्तज्जाय नमः ॐ मन्धार समनोभास्वते नमः ॐ मन्दाकिनीसमुल्लासकपर्धाय नमः ॐ मन्दारविडभिस्पर्धिधोर्दण्डाय नमः ॐ मन्दारवनमध्यकाय नमः ॐ मन्दारकुसुमामोदाय नमः ॐ मन्दाकिनी धाराय नमः ॐ मद्दुलानगभृन्नन्दिबाधवानन्दिने नमः ॐ मादकाय नमः ॐ माध्याय नमः ॐ मुद्रापाणये नमः ॐ मुधाकृतये नमः ॐ मुद्राप्रियाय नमः ॐ मुद्रा पुस्तकधारिणे नमः ॐ मुधाकराय नमः ॐ मुद्रपुस्तकवन्निनागविलसद्वाघवे नमः ॐ मी दुरस्वर्णवस्त्राढ्यकटीदेशस्तमेकलाय नमः ॐ मोदकप्रियाय नमः ॐ मुधावासाय नमः ॐ मुदिदाक्षयाय नमः ॐ मधुराय नमः ॐ मधुरा सगस्वानन्दाय नमः मधुमदीनाथाय नमः ॐ मधुपूजापरायणाय नमः ॐ मधुपानरथाय नमः ॐ मधुपुत्रप्रियाय नमः ॐ मधु नमः ॐ मधुप्रियाय नमः ॐ मधुरसाय नमः ॐ मधुरानाथाय नमः ॐ मधुर नमः ॐ मधुरान्तक मधुरप्रियदर्शनाय नमः ॐ मधुरा वासभुवे नमः ॐ मधुरापुरनाथाय नमः ॐ मधुरापतये नमः ॐ मधुरी पुविदिष्करमुक् ्यसेलैरविनियमार्चितपद्मकाय नमः ॐ मधुरसह्वराक्षीसहचराय नमः ॐ मधुमदनडृग्दूरचरणाय नमः ॐ मधुकृते नमः ॐ मधुरसम्भाषणाय नमः मधवे नमः ॐ मधुराधिपाय नमः ॐ मधुक्कलोचनाय नमः ॐ मधुवैरिणादर्शितप्रसादाय नमः ॐ मध्यमार्गप्रदर्शिने नमः ॐ मध्यलक्ष्यस्वरूपिणे नमः ॐ मध्यमाकृतये नमः ॐ मध्यनाशकाय नमः ॐ मध्यस्थाय नमः ॐ माध्यमिकानां शून्याय नमः ॐ मन्धात्रे नमः मन्दाद्रुपरिपूजिताय नमः ॐ माधवप्रियाय नमः ॐ माध्वै नमः ॐ माधवाय नमः ॐ मेधामूर्तये नमः ॐ मेधाधाराय नमः ॐ मेधाय नमः ॐ मेध्याय नमः मेदसे नमः ॐ माद्यन्तिनसवस्तुताय नमः ॐ मनवे नमः ॐ मनोहारि सर्वाङ्गरत्नादिभूषाय नमः ॐ मनोहराय नमः ॐ मनोमयाय नमः ॐ मनो नमः ॐ मनोनवाभ्यसौभाग्यसर्वाङ्गाय नमः मनोजवाय नमः ॐ मनसे नमः ॐ मनसिजपञ्जकाय नमः मन्मथमन्मथाय नमः ॐ मन्वादीनां पतये नमः ॐ मनुष्यदमीनुगताय नमः ॐ मनोवेगिने नमः ॐ मनोहारिनिजाङ्गाय नमः ॐ मनोरूपिणे नमः ॐ मनोरमाय नमः ॐ मनोगतये नमः ॐ मनोन्मनाय नमः ॐ मनो भगवतीताय नमः ॐ मनोभन्त हृते नमः ॐ मनोवाचामगोचराय नमः ॐ मनोज्ञाय नमः ॐ मनोरूपाय नमः ॐ मनोभवाय नमः ॐ मनस्तुताय नमः ॐ मनस्थाय नमः ॐ मन्मथां गविनाशनाय नमः ॐ मन्मथनाशकाय नमः ॐ मनुष्यभागय गतये नमः ॐ मन्यवे नमः ॐ मन्मथाङ्गविनाशकाय नमः ॐ मानिने नमः ॐ मानधनाय नमः ॐ मान्याय नमः ॐ मानतः पराय नमः ॐ मानयथां मान्याय नमहान् मानदायकाय नमः ॐ मानरूपाय नमः ॐ मानगम्याय नमः ॐ मानपूजापरायणाय नमः ॐ मानाय नमः ॐ मानरहिताय नमः ॐ माननीयाय ॐ मीनाक्षी प्राणवल्लभाय नमः ॐ मुनये नमः ॐ मुनि सङ्गप्रयुक्तासमयष्टिलोष्टमूदिताय नमः ॐ मुनिसेव्याय नमः ॐ मुनीश्वराय नमः ॐ मुनि प्रोक्षितवग्नियेणीठमर्वशिभृते नमः ॐ मुनि हृत्पुण्ढरीकस्ताय नमः ॐ मुनि सङ्गैकजीवनाय नमः ॐ मुनिगणमाननीयाय नमः ॐ मुनिमृग्याय नमः ॐ मुनित्रय परित्राणदक्षिणामूर्तये नमः ॐ मुनि प्रियाय नमः ॐ मुनित्येयाय नमः नि बृन्दादिभिर्ध्येयाय नमः ॐ मुनि ज्ञानप्रधाय नमः ॐ मुनि बिर्घाय ते नमः ॐ मुनि बृन्दनिषेविताय नमः ॐ मुनीनाम् व्यासाय नमः ॐ मुनितनय आयुर्वदाप अभाधयुग्माय नमः ॐ मुनिसहस्रसेविताय नमः ॐ मुनीन्द्राय नमः ॐ मुनीन्द्राणां पतये नमः ॐ मां बीजपसन्तोषिताय नमः ॐ मां बीजजपसन्तुष्टाय नमः ॐ मीमांसकाय नमः ीं ह्रीं नमः ॐ मूर्षुचित्रविभ्राजद्देशिगेन्द्राय नमः ॐ मत्वग्रन्थिविच्छेतलम्पटाय नमः ॐ मोक्षाणां पराय गतये नमः ॐ मयाय नमः ॐ मयस्कराय नमः ॐ मयोभुवे नमः ॐ मयोभवाय नमः ॐ मायिने नमः ॐ मायाश्रियाय नमः ॐ मायातीताय नमः ॐ मायापतये नमः ॐ माया नामकभोगध्रुवसादनवपुरिन्द्रियादि जनकजन्तुसंसृष्टात्मने नमः ॐ माया कल्पितमालुधानः नमः ॐ मो नमः ॐ मायातन्त्रप्रवर्तकाय नमः ॐ मायाविनां नमः ॐ माया रये नमः ॐ मायाविने नमः ॐ मायाबीजाय नमः ॐ मायाहन्त्रे नमः ॐ मायायुक्ताय नमः ॐ मरणजन्मशून्याय नमः ॐ मरुतां हन्त्रे नमः ॐ मरुते नमः ॐ मरीचये नमः ॐ नमः ॐ नमः ॐ नमः मार्गाय नमः ॐ मार्कण्ठेयविज्ञासामः ग्रन्थिभिते नमः ॐ मारमार्धनाय नमः ॐ मार्तामण्ढलान्तस्याय नमः ॐ मार्ताण्टभैरवाराध्याय नमः ॐ मार्घद्वयसमेताय नमः ॐ मुरारिनेत्रपूज्यान्त्रिपङ्गजाय नमः ॐ मारारये नमः ेत्रारभिन्द अर्चिताय नमः ॐ मुरजटिण्डिमवाद्यविशेषणाय नमः ॐ मूर्तये नमः ॐ मूर्तिसाधारक्य उत् य नमः ॐ मूर्तितत्त्वरहिताया विस्वयं पञ्चब्रह्मातिमूर्तये नमः ॐ मूर्तिजाय नमः ॐ मूर्तिवर्जिताय नमः ॐ मूर्तिभवत्कृपापूराय नमः ॐ मूर्ताय नमः ॐ मूर्धकाय नमः ॐ मूर्तामूर्तस्वरूपाय नमः ॐ मीरुशृङ्गा अग्रनिलयाय नमः ॐ मेरुकार्मुकाय नमः ॐ मेरुरूपाय नमः ॐ मेरवे नमः ॐ मौर्वीकृता नमः ॐ मलविमोचकाय नमः ॐ मलयस्थाय नमः ॐ मलयानिलसेविताय नमः ॐ मल्लिकामुकलाकाररथनाय नमः ॐ मल्लिकार्जुनेश्वराय नमः ॐ मालिनीमन्त्ररूपिणे नमः ॐ मालिने नमः ॐ मूलाचार्याय नमः ॐ मूलस्थाय नमः ॐ मूलाय नमः ॐ मूलप्रकृतये नमः ॐ मूलभूताय नमः ॐ मूलाधारस्थिताय नमः ॐ मूलसूक्ष्मस्वरूपिणे नमः ॐ मं वरताय नमः ॐ असखीकृतराक्षसाय नमः ॐ माषान्नप्रीतमानसाय नमः उषितसर्वावलेपाय नमः ॐ उष्णतां पतये नमः ॐ मासाय नमः ॐ माषानां प्रभवे नमः ॐ मां सलोरुकटीतटाय नमः ॐ महते नमः ॐ मखतोमहीयसे नमः ॐ मक स्तोमममूर्तये नमः ॐ मकशिवन्दिधाय नमः ॐ मखदानन्ददायिने नमः ॐ महनीय भूसुरमौनिसन्तोषाय नमः ॐ महर्षिमानसोल्लासकाय नमः ॐ महद्ब्रह्मविवर्धनाय नमः ॐ महनीय नमः ॐ महाक्रमाय नमः ॐ महास्वनाय नमः ॐ महादिव्याय नमः ॐ महायोग्ने नमः ॐ महायोगिने नमः ॐ महाज्ञानिने नमः ॐ महादंष्ट्रायुधाय नमः ॐ महानन्दपरायणाय नमः ॐ वीरग्ने नमः ॐ महासारस्वतप्रदाय नमः ॐ महात्मने नमः ॐ महामौनिने नमः ॐ महागर्ताय नमः ॐ महाशयाय नमः ॐ महाकर्मिणे नमः ॐ महाध्वज ॐ महासनाय नमः ॐ महर्षये नमः ॐ महाग्रासाय नमः ॐ महावेद्याय नमः ॐ महाभोगाय नमः ॐ महाकोशाय नमः ॐ महाधनाय नमः ॐ महावैद्याय नमः ॐ महासत्याय नमः ॐ महावीर्याय नमः ॐ महामन्त्राय नमः ॐ महाहृताय नमः ॐ महाकर्त्रे नमः ॐ महाकेतवे नमः ॐ महानन्दाय नमः ॐ महाघण्टाय नमः ॐ महात्रिपुरसंहारकारकाय नमः ॐ महाविभूतये नमः ॐ महाय नमः ॐ महान्ताय नमः ॐ महाप्रभवे नमः ॐ महाभागाय नमः ॐ महामोघाय नमः ॐ महासुरेशाय नमः ॐ महारौद्राय नमः ॐ महाभैरवाय नमः ॐ महामरकप्रत्यनागीकुण्टलमण्डिताय नमः ॐ महामण्डलरूपिणे नमः ॐ महामयूरवाय नमः ॐ महानटाय नमः महाभैरवरूपिणे नमः ॐ महाराष्ट्रे केदारेश्वराय नमः ॐ महापात्राय नमः ॐ महान्तकाय नमः ॐ महागीताय नमः ॐ महाहर्षाय नमः ॐ महाक्रोधाय नमः ॐ महायुधाय नमः ॐ महामुनये नमः ॐ महामायाय नमः ॐ महावरीयसे नमः ॐ महाकषाय नमः ॐ महादाद्रे नमः ॐ महावदाय नमः ॐ महारथाय नमः ॐ महार्णवनिपानविदे नमः ॐ महागर्भपरायणाय नमः ॐ महाज्वालाय नमः ॐ महाघोराय नमः ॐ महामेघनिवासिने नमः ॐ महासेनाय नमः ॐ महालिङ्गाय नमः ॐ महावेगाय नमः ॐ महाभलाय नमः ॐ महाभवभयत्राणपारिणाय नमः ॐ महाकर्मणे नमः ॐ महामणये नमः ॐ महादम्भाय नमः ॐ महाकालाय नमः ॐ महारूपाय नमः ॐ महावृक्षाय नमः ॐ महायशसे नमः ॐ महाज्योतिषे नमः ॐ महाज्ञानिने नमः ॐ महाधनुषे नमः ॐ महातुष्टये नमः ॐ महापुष्टये नमः ॐ महामङ्गलाय नमः ॐ महारेतसे नमः ॐ महाधराय नमः ॐ महातपसे नमः ॐ महामनसे नमः ॐ महादेवाय नमः ॐ महावक्त्रे नमः ॐ महामान्याय नमः महासाय नमः ॐ महायोगिने नमः ॐ महाभोगिने नमः ॐ महालक्ष्मीनिवासां त्रिपारगाय नमः ॐ महादेवाभिधानैकरुडार्ताय नमः महाकोपभयव्यातिभैषद्याय नमः ॐ महाकैलासशिखरवास्तव्याय नमः ॐ महाबृन्धाय नमः ॐ महादेवप्रियाय नमः ॐ महाताण्डवकृते नमः ॐ महामातकमूलोकभावकाय नमः ॐ महानीतये नमः ॐ महापापकराय नमः महामतये नमः ॐ महापातकनाशनाय नमः ॐ महावरदाय नमः ॐ महावीर्यजाय नमः ॐ महागर्भाय नमः ॐ महागविषे नमः ॐ महाभूताय नमः ॐ महाविष्णवे नमः ॐ महाचार्याय नमः ॐ महाचापाय नमः ॐ महाद्युतये नमः ॐ महाबुद्धये नमः महाभीमयमध्वंशोद्योगि वा माङ्ग्रये नमः ॐ महाविज्ञानते जौरवे नमः ॐ महानुभावाय नमः ॐ महाफलाय नमः ॐ महाकल्पस्वाहा कृतभुवनचक्राय नमः ॐ महामायाय नमः ॐ महागुहान्तर्निषित्ताय नमः ॐ महापटवे नमः ॐ महालयाय नमः ॐ महाबलाय नमः ॐ महानाथाय नमः ॐ महाप्राणाय नमः ॐ महालक्ष्मीप्रियतमाय नमः ॐ महानाथरूपाय नमः ॐ महासिद्धये नमः ॐ महायोगीश्वरेश्वराय नमः ॐ महादृतये नमः ॐ महामेधसे नमः ॐ महादिनाय नमः ॐ महायन्त्राय नमः ॐ महामानिने नमः ॐ महागुणाय नमः ॐ महायुष्मते नमः ॐ महामङ्गलविग्रहाय नमः ॐ महाविचारगत्वंशिने नमः ॐ महाकैलासनिलयाय नमः ॐ महाकुशये नमः ॐ महाकारुण्यमूर्तये नमः ॐ महालावण्यसेवद महाभिषेकसन्तुष्टाय नमः महावीरेन्द्रवरदाय नमः ॐ महाभूतिप्रदाय नमः ॐ महायोगीन्द्रवन्दिदाय नमः ॐ महाशान्ताय नमः ॐ महापापप्रशमनाय नमः ॐ महाकल्प्याय नमः ॐ महारूपाय नमः ॐ महागगनाय नमः ॐ महामालाय नमः ॐ महाप्रसादाय नमः ॐ महागुरवे नमः महारुद्राय नमः ॐ महावीराय नमः ॐ महानाट्यविशारदाय नमः ॐ महागन्धाय नमः ॐ महाश्रवाय नमः ॐ महाव्रतेने नमः ॐ महाविद्याय नमः ॐ महाधीराय नमः ॐ महाप्रेदासनासीनाय नमः ॐ महासन्तोषरु य नमः ॐ महापराक्रमाय नमः ॐ महातेजोनिदये नमः ॐ महाहीभोगज्याभद्रमौर्यादृतनुषे नमः ॐ महाकाशाय नमः ॐ महार्णवाय नमः ॐ महाधान्ताय नमः ॐ महागणपतये नमः ॐ महार्ताय नमः ॐ मकाक्षान्ताय नमः ॐ महाबलपराय नमः ॐ महाकर्तृप्रियाय नमः ॐ महागुणाय नमः ॐ महासाराय नमः ॐ महापापना साय नमः ॐ महाटाढकासाय नमः ॐ महामोहराय नमः ॐ महामण्डलाय नमः ॐ महालीलाभूतप्रकटितविशिष्टात्मविभुवाय नमः ॐ महामादङ्गध्वग्वरवसनाय नमः ॐ महाभोगीन्द्रोऽध्यत्फणमणिगणालम् कृतनवे नमः ॐ महाकारुण्याब्धये नमः ॐ महासम्भवे नमः ॐ महारुद्राय नमः ॐ महाभोगोपवीतिने नमः ॐ महायज्ञाय नमः ॐ महातालाय नमः ॐ महाधीराय नमः ॐ महाधर्माय नमः ॐ महासत्त्वाय नमः ॐ महाकैलासशिखरनिलयाय नमः ॐ महाताण्डवचातुर्यपाण्डिताय नमः ॐ महाव्याधाय नमः ॐ महापासौदसंहर्त्रे नमः ॐ महायन्त्रप्रवर्तिने नमः ॐ महासन्ध्याभ्रवर्णाय नमः ॐ महास्तोममूर्तये नमः ॐ महाभाकाय नमः ॐ महायोगाय नमः ॐ महापञ्चयज्ञनाडीफलदाय नमः ॐ महाग्निकेधारेश्वराय नमः ॐ महामणिमकुटधारणाय नमः ॐ महाकालभेदनाय नमः ॐ महाकालकालाय नमः महानीपारण्यान्तरकनकपद्माकरदटीमकेन्द्राणि दाष्टगद्विभद्रुतविमानान्तर्गताय नमः ॐ महामूर्ग्ने नमः ॐ महाशिरसे नमः ॐ महाकेशाय नमः ॐ महाजटाय नमः ॐ महाकिरीटाय नमः ोम्णे नमः ॐ महाम्भराय नमः ॐ महामुखाय नमः ॐ महाभोक्त्रे नमः ॐ महावक्त्राय नमः ॐ महाजिह्वाय नमः ॐ महाननाय नमः ॐ महादंष्ट्राय नमः ॐ महादन्दाय नमः ॐ महानेत्राय नमः ॐ महाकणीय नमः ॐ महाग्रीवाय नमः ॐ महाकम्बवे नमः ॐ महानाशाय नमः ॐ महाकर्मिणे नमः ॐ महाहनवे नमः ॐ महोदराय नमः ॐ महाकुशिभृते नमः ॐ महाकृत्यनिभञ्जनाय नमः महास्कन्धाय नमः ॐ महाजत्रवे नमः ॐ महावक्षसे नमः ॐ महाभुजाय नमः ॐ महोरस्काय नमः ॐ महाकराय नमः ॐ महाकटये नमः ॐ महाहस्ताय नमः ॐ महागुह्याय नमः ॐ महोरसे नमः ॐ महाजानवे नमः महाजन्दाय नमः ॐ महापादाय नमः ॐ महादंष्ट्रायुधाय नमः ॐ महानकाय नमः ॐ महाकायाय नमः ॐ महामेड्राय नमः ॐ महाङ्गाय नमः ॐ महाशरीराय नमः ॐ महिमनिलयाय नमः ॐ महिषासुरमर्धनाय नमः ॐ महिषारूढाय नमः ॐ महिमैकनिकेतनाय नमः ॐ महिमावते नमः ॐ महिताय नमः ॐ महितविभवाय नमः ॐ महितगुणावलिमान्याय नमः ॐ महीधराय नमः ी मङ्गलदायकाय नमः ॐ मही भर्त्रे नमः ॐ मकी चारिस्तुताय नमः ॐ मकीतलविशालोरफलकाय नमः ॐ महेश्वराय नमः ॐ महेश्वरजनकाय नमः ॐ महेश्वासिने नमः ॐ महेश्वासाय नमः ॐ महेशानाय नमः ॐ महेश्वरात्मकतनाय नमः ॐ महेश्वरात्मकपूर्ववदनाय नमः ॐ महेन्द्रो मेन्द्रचन्द्रार्गनमिताय नमः ॐ महोधारतरकभावाय नमः महोददीनां प्रभवे नमः ॐ महौषधीनां प्रभवे नमः ॐ महौषधाय नमः ॐ महोजसे नमः ॐ मघोषाय नमः ॐ मघोषकमठाधारभुजाग्राय नमः ॐ महोद्गाकुलवीक्षणाय नमः ॐ महोष्णे नमः ॐ मघोषवाहनाय नमः ॐ महोरासये नमः ॐ महोज्वालाय नमः ॐ महोत्सवाय नमः ॐ महोग्रसौर्याय नमः ॐ मुकीर्ताकक्षणाय नमः ॐ महिमापतये नमः ॐ मह्यं नमः ॐ मह्यं भुवायवग्निमत् त्कपूर्तये नमः ॐ मिशिरविदुदहनमण्डलवर्तिने नमः ॐ मुहूर्ताय नमः ॐ मोहिनी मुषे नमः ॐ मोहिनी मोहनाय नमः ॐ मोहिने नमः ॐ मोहातीताय नमः ॐ मोहाय नमः ॐ मोहावर्तनि वर्तकाय नमः ॐ मोहस्थाय नमः ॐ मोहनाय नमः ॐ मोहिनीप्रियाय नमः ॐ मौलिभिन्नाण्डभित्तये नमः ॐ मौलिरत्नभासे नमः ॐ मौलिकेलन्मुकुरसुरनधीनीररम्याय नमः ॐ मौलीभागे जटिलाय नमः ॐ मौलि धृतचन्द्रसकलाय नमः ॐ मौलिधृतगङ्गाय नमः ॐ मौलिशोभाविराजिताय नमः ॐ माक्षरलक्षणभागवे नमः ॐ मोक्षाय नमः ॐ मोक्षनिधये नमः ॐ मोक्षधायिने नमः ॐ मोक्षद्वाराय नमः ॐ मोक्षधाय नमः ॐ मोक्षार्दिने नमः ॐ मोक्षलक्ष्मीविहाराय नमः ॐ मोक्षफलाय नमः ॐ मोक्षरूपाय नमः ॐ मोक्षकर् ॐ यकारस्य वायोर्देवता भूतात्युच्चारणे विनियोग यकाराय नमः ॐ यकाररूपाय नमः ॐ याकिप्रियाय नमः ॐ युक्ताय नमः ॐ युक्तभावाय नमः ॐ युक्तये नमः ॐ युगाधिपाय नमः ॐ युगापहाय नमः ॐ युगरूपाय नमः ॐ युगकृते नमः ॐ युगान्तकाय नमः ॐ युगन्धराय नमः ॐ युगवत्सुरसाहस्रकङ्कारचेदिने नमः ॐ युगादिकृते नमः ॐ युगावर्ताय नमः ॐ युगाध्यक्षाय नमः ॐ युगावहाय नमः ॐ युगाधीशाय नमः ॐ युगनाशाय नमः ॐ युगस्य प्रभवे नमः ॐ योगा योगसिद्धिदाय नमः ॐ योगमायासमावृताय नमः ॐ योगदात्रे नमः ॐ योगमायाय नमः गमायाग्रसम्भवाय नमः ॐ योगर्दिहेतवे नमः ॐ योगाधिपतये नमः ॐ योगस्वामिने नमः ॐ योगदायिने नमः ॐ योगपीडान्तरस्थाय नमः ॐ योगस्य प्रभवे नमः ॐ योगरूपिणे नमः ॐ योगरूपाय नमः ॐ योगज्ञाननियोजकाय नमः ॐ योगात्मने नमः ॐ योगवतां कृत्स्थाय नमः ॐ योगरथाय नमः ॐ योगाय नमः ॐ योगाचार्याय नमः ॐ योगानन्दाय नमः ॐ योगाधीशाय नमः ॐ योगमाया संवृतविग्रहाय नमः ॐ योगमायामयाय नमः ॐ योगसेव्याय नमः